गणेशपुराणम् उपासनाखण्डम् अध्यायं ट्वेन्टि नैन् मुनिरुवाच तस्मिन् वडे समासीनः नृपः दूरा ददर्शदेवर्षि नारदं मुनिपुङ्गवं ननाम प्रार्थयामासक्षणं विश्राम्यदामिति ततारनभो मार्गान्नारदः करुणानिधिः पूजयित्वा यथा मुनिमादराद। अहं रुक्मांगदो नाम भीमपुत्रो महाबलः मृगयां व्यचरन्वाचक्नवेराश्रममागतः जलया चाकृदा तत्र तृषिते न मया नख तस्य पत्नीभृशं नष्ट कामार्ता मामचुम्बद तस्मिन् मुनौ दुष्टभावेन चेतसा उवाच मां भज स्वेदि कामबाणप्रपीडिता जितेन्द्रियतया देवप्रसादात् सा निराकृता अशपद्दुःखिदात्यन्तं सा मां निष्ठुरचेदशा कुष्ठीभवमहादुष्ट सका मां त्यजसे यतः श्रुत्वैवं नष्टभजनं निर्गतोऽहं तदाश्रमाद स्वेदकुष्ठी तदाजादो वदमे निष्कृतिं मुने वियोगान् मम भीमोऽपि मग्नस्याद्दुःखसागरे श्रुत्वेद्धं वचनं तस्य नारदः प्राकविश्वविद उपायं तस्य कुष्ठस्य नाशाय करुणायुतः नारद उवाच आगच्छदा मया मार्गे दृष्टमाश्चर्यमुत्तमम् विदर्भे नगरं ख्यादं कदम्बमिति संज्ञया तत्प्रासादे मया दृष्टा मूर्तिवैनायकीशुभा चिन्तामणिरिधिख्यादा सर्वेषां सर्वकामदा तस्याग्रदो महाकुण्ठं गणेशपदपूर्वकं कश्चिच्छूद्रो महाकुष्ठी जरा जर्जरितो नृपतीर्थयात्राप्रसङ्गेन कदम्बपुरमागदः गणेशकुण्ठे स्नात्वैव दिव्यदेहमवापसः विनायकस्वरूपैस्तु गणैरानदितम्बराद विमानवरमारुह्य सगदस्थानमुत्तमं यत्र गत्वा न शोचन्ति न पतन्ति पुनः क्वचिदृष्टो मयैव समभ्यर्च समभ्यर्चितार्थप्रदं विभुं दानानि विप्रेभ्य सद्भ्यपूतो भविष्यसि जीर्णां त्वचं परित्यज्य सुरूपी भुजगो यथा ब्रह्मोवाच यदि वाणीं नारदोक्तां निशम्य नृपसत्तम न किञ्चिदुक्तवान्वाक्यम् मग्न आनन्दसागरे गन्तुं समुद्यते तस्मिन् नारदे मुनिपुङ्गवे प्रणिपत्यतदो ततोऽपृच्छत्प्रपूज्य प्रपूज्यच मुनिं पुनः रुक्माङ्गद उवाच तस्मिन् क्षेत्रे पुराकेन सिद्धिप्राप्ता शुभानख मूर्तिश्च स्थापिता केन मणिरत्नमयी शुभा वैनायकीदि मे परं कौतूहलं मुने भवादृशानां परोपकरणे मतिः अन्यथा कृत्यं न लोकेषु प्रदृश्यते ोकेशु वर्षदे मेख शेषेण्रीयते धरा उपकारा सूर्यो भ्रमदे खर्निशंजू सर्वज तवाग्रता अनभिज्ञन किम् वक्त दयानिथे पृछे तथापि देवर्षे संशयच्छेदनाय नारद उवाच साधु पृष्ठं त्वया भूप लोकानुग्रहकारक तृप्तोऽकं तव वाक्येन सर्वं च कथयामि ते यदि श्रीगणेशपुराणे उपासनाखण्डे नारदागमनं नामैको नत्रिंशोऽध्यायः ओ